पिता शृण्वन् बालप्रकरमखिलम् त्वत् स्तुति परम् उषः दः प्राहैण कुलः तक कष्टे बलमिति बलमेवैकुङ्कस्तव चापि सबलम् स एव त्रैलोक्यम् सकलमिति धीरोऽयमगरी